अथ चतुर्थः सर्गः ह्रियमाणौ तु काकुत्स्थौ दृष्ट्वा सीतारघूत्तमौ उच्चैः स्वरेण चुक्रोशप्रगृह्य सुमहाभुजौ एष दाशरथी रामः सत्यवाञ्छीलवाञ्छुचिः भ्रक्षसारौद्ररूपेण ह्रियते सः लक्ष्मणः मा वृक्षा भक्षयिष्यन्ति माम् हरोत्सृजकाकुत्स्थौ नमस्ते राक्षसोत्तमा तस्यास्तद्वचनम् श्रुत्वा वैदेह्या रामलक्ष्मणौ वेगम् प्रचक्रतुर्वीरौ वधे तस्य दुरात्मनः तस्य रौद्रस्य सौमित्रिः सव्यम् बाहुम् बभञ्जः रामस्तु दक्षिणम् बाहुम् तरसा तस्य राक्षसः स भग्नबा सं पता विमूर्ण्या मेघ सज्रिन्न इवाचल मुष्टिर्बाहु पद्भि सोदय तौ तो राक्षस उद्यम्योद्य चाप्येनम स्थंडि निष्पेशो बहुर्बाण खड़गाभ्या निष्पिष्टो बहुधा भूमौ नम मालस राक्षसः तम् प्रेक्ष्य रामस्भृशमवध्यमचलोपमम् भयेष्वभयद श्रीमानिदम् वचनमब्रवीत् तपसा न निखनावहे कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण वनेऽस्मिन्सुमहच्छ्वभ्रम् खन्यताम् रौद्रवर्चसः इत्युक्त्वा लक्ष्मणम् रामः प्रदरः खन्यतामिति विराधमाक्रम्य कण्ठे पादेन वीर्यवान। तच्छ्रुत्वा राघवेणोक्तम् राक्षसः प्रश्रितम् वचः प्रोवाच काकुत्स्थम् विराधः हतोऽहम् पुरुषव्याघ्रशक्रतुल्यबलेन वै मया तु पूर्वम् त्वम् मोहान्न ज्ञातः पुरुषर्षभा कौसल्यासुप्रजास्तात रामस्त्वम् विदितो मया वैदेही महाभागा लक्ष्मणश्च महायशाः अभिशापादहम् घोराम् प्रविष्टो तुम्वरुर्नाम गन्धर्वः शप्तो वैश्रवणेन हि प्रसाद्यमानश्च मया सोऽब्रवीन् माम् महायशाः यदा दाशरथी रामस्त्वाम् वधिष्यति संयुगे तदा प्रकृतिमापन्नो भवान् स्वर्गम् गमिष्यति अनुपस्थीयमानो माम् व्याजहारः इति वै श्रवणो राजारम्भासक्तमुवाचः तव प्रसादान्मुक्तोऽहमभिशापात् सुदारुणात् भुवनम् स्वम् गमिष्यामि स्वस्ति वोस्तु परन्तप इतो वसति धर्मात्मा शरभङ्गः प्रतापवान् अध्यर्थयोजनेता तमहर्षिः सूर्यसन्निभः तम् क्षिप्रमभिगच्छ त्वम् सते अवटे चापि माम् राम निक्षिप्य कुशली व्रज रक्षसाम् गतसत्त्वानामेष धर्मः सनातनः अवटे ये निधीयन्ते तेषाम् लोकाः सनातनाः एवमुक्त्वा तु काकुत्स्थम् विराधः शरपीडितः बभूव न्यस्तदेहो महाबलः तच्छ्रुत्वा राघवो वाक्यम् लक्ष्मणम् व्यादिदेशः कुञ्जरस्येव रौद्रस्य राक्षसस्यास्य लक्ष्मण वनेऽस्मिन् सुमहा श्वभ्रः रौद्रकर्मणः इत्युक्त्वा लक्ष्मणम् रामः तस्थौ विराजमाक्रम्य कण्ठे पादेन वीर्यवान् अखनत्पार्श्वतस्तस्य विराधस्य महात्मनः तम् मुक्तकण्ठमुत्क्षिप्य शङ्कुकर्णम् महास्वनम् विराधम् प्राक्षिपच्छभ्रेण दन्तम् भैरवस्वनम् तमाहवेदारुणमाशु विक्रमौ स्थिराबुभौ संयति रामलक्ष्मणौ मुदान्वितौ चक्षिपतुर्भयावहम् न दन्तमुत्क्षिप्य बलेन राक्षसम् अवध्यताम् प्रेक्ष्य महासुरस्य तौषितेन शस्त्रेण तदा नरर्षभौ समर्थ्य चात्यर्थविशारदा भो बिले विराधस्य वधम् प्रचक्रतुः स्वयम् विराधेन हि मृत्युमात्मनः प्रसह्य रामेण यथार्थमीप्सितः निवेदितः काननचारिणा स्वयम् न मे वधः शस्त्रकृतो भवेदिति तदेव रामेण निशम्य भाषितम् कृता मतिस्तस्य बिलप्रवेशने विलञ्च तेनातिबलेन रक्षसा प्रवेश्यमानेन वनम् विनादितम् प्रहृष्टरूपा विव रामलक्ष्मणो विराजमुर्व्याम् प्रदरे निपात्यतम् ननन्दतुर्वीतभयो महावने शिलाभिरन्तर्दधतुश्च ततस्तुतौ काञ्चन चित्रकार्मुकौ निहत्य रक्षः परिगृह्य मैथिली मुदितौ महावने दिवि स्थितौ चन्द्रदिवाकराविवा इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अरण्यकाण्डे चतुर्थः